अथ पञ्चमकाण्डे चतुर्थप्रश्नप्रारम्भः देवासरा संयत्ता इन्द्रस्तनोरपश्यता उपाधत्तताभिर्वैः स तनुवमिन्द्रियं वीर्यमात्मन्न देवाभवन्परासुरादिन्द्रतनोरुपदधाति तनुवमेव ताभिरिन्द्रियं वीर्यं यजमान आत्मन्धत्ते सेन्द्रमेवाज्ञो सदन जिनते भव मनापरास्य प्रादृशो भवति यज्ञो देवेभ्योपाक्रामत्तमवरधन्ना शक्नुवन्त एता यज्ञतनुरपश्यन्ता उपादधताभिर्वैते यज्ञमवारन्धत यद्यज्ञतनुरपदधाति यज्ञमेवताभिर्यजमानावरुन्धे त्रयस्त्रिकोशतमुपदधाति त्रयस्त्रिगुणंशत्वयि देवता देवता एवावरुन्धे सोसात्मानमेवाग्निगुंशतनं जृकेतात्मा स्मिन् लोके भवति एवं वेद्योतिष्मदैर्वोतिरेवास्मिन् दधात्येताभिर्वाग्निश्चितोै न उभयोरस्मै लोकयो द्योतिर्भवति नक्षत्रेष्टका उपदधात्येतानि वै दिवो ज्योतिगुंषितान्येवा वृन्धे सुकृतां वा एतानि ज्योतिगुंशि यन्नक्षत्राणि तान्येवाप्नोत्यतो अनवकाशमेवैतानि श्रीकुरुते सुवर्गस्य लोकस्या नक्ष्यात्यसत्वस्पृष्टा उपदध्या दृष्ट्यै लोकमपि दध्यादवर्षगः पर्जन्यस्याद सत्वस्पृष्टा उपदधाति दृष्ट्या एव लोकम् करोति वर्षगः पर्जन्या पुरस्तादन्या प्रतीचेरुपदधाति पश्चादन्या प्राजेस्तस्मात् प्राचीनानि च प्रतीचीनानि च ्यापदधाति ऋतो नाङ्गृत्ये द्वन्द्वमुपदधाति तस्मात्त्वन्द्वृतवधते भव एषा यन्मध्यमादिशोपदधातिव्या उपदधाति नाकामनोपदधात्येषा वा निश्चमे दा ना ना वाक्यं विश्वामित्र ददि ब्रह्मणान्नं यस्यैता उपधियान्तयोरेण एवं वे दधिति संवत्सरा वा एतं प्रतिष्ठायैत्वा न प्रतिष्ठति पञ्चपोर्भाे पार्दवस्संवत्सरा संवत्सरे प्रतिष्ठत्येता अधिपत्तेर्नामेष्टा रण्यमत्यरण्ये प्रोक्षति यज्ञस्य निष्कृत्यास्मै समर्थय सोऽ प्रेवदे, प्रेवदे इमामे हस्रप्रजापदे प्रजापदेष्टकामधेनोः सन्दित्याो रेवैनामदधामत्राणि लोक उपतिष्ठन्ते पुत्रो वा एष यज्ञस्य एतर्हि जातो यर्हि सर्वस्थिरस्य यथा वत्सो जातस्तं रेप्सत्येवं वा एष येतर्हि वागधेयं व्रेप्सम्याहुजन्न हुया तत्पर्यं जयजमानं जायेच्छतत्रियं ज्योति वागधेयेनैवर्यं नैजमानो पयसा जहुयात् काम्याम् पशुंसुजात् यद्यारण्यानामारण्यान्यत्रय वाक्वा वाजुयान् कवेदकय वाक्वानग्राम्यान् पशोनिहिनस्त्य नारण्यानथो खल्वा हरणाह सर्वै जगाश्च कवेदकाश्चेच्छज क्षेरेण जहात्याग्नेयैवा एषाय दजाहुतेवजहजनग्राम्यान् पशोनिहनस्त्य नारण्यानङ्गरजस्वर्गं लोकयन्तोजायान् धर्मं प्रासिङ्गम् त्वमर्कवर्णेन जहोतिषयो नित्वाय सन्धिष्ठं जहोत्येशा विरुद्रस्य दिक्ष्वायामेव निरोदयते च रमायामिष्ठकायां जहोत्यं त एव रुद्रन् निरवदयते त्रयधा विभक्तं जहोदित्रय इमे लोका इमानेव लोकान् समावत्तीर्यान् करोति यत् चग्रे जहाच्यथे यत्थे लोकायेभ्य देवेन लोकेभ्यः शमयति तिस्रोत्तराहदेभ्यः द्विषट् सम्पद्यन्ते षट्वारदवर्दभिमय देवं वा कस्याम्बेत्यनुपरिक्राममेवर्गमेवेन गोशमयत्येता वै देवतास्तायजमानं वा जयति भिदेवैन गोपर्गल् लोकङ्गमयम् दृश्यात्तस्य सङ्ख्यमेव शोनान्यस्येद्यः प्रथमः परिषिञ्चति मार्जयत्येवै नमजा दर्पयत् देवन्मजो जन्मस्मिन् लोक उपलक्षते प्रदया वशोरराणा इत्याोऽर्गन्नं मरुदान्नमेवा वृन्दे क्षुदमम् इत्यायमेव र्यत्वार्या वाग्निस्तस्य पुनः पर्य ऋषप्त्वाशुजगो शमयत्यपां वा एतत् पुष्पे शरवकाव्यचावकाव्यश्च विकर्षच्च भो वै शान्ता शान्ताभिरे वाग् मदेशत् एष वै पशो नामनुपदेव नीयान वा एष ग्राम्येषु पशुषविताष्टाभिक्षरा गायत्रीस्तस्य वकोन्नेनैवास्य मृत्युर्वा एषैदत् निर्ब्रह्मण एतद्रोपष्णाजनं कास्मैरुपानहारे ब्रह्मणैव मृत्युर्धत्ते ूर्त्याद्धेन्दरन्नाद्यादित्याहुरन्यामुपमुञ्चदे्यान्नान्तरेव मूर्त्यान्ते अस्मत्तवन्त हेदयैत्याहयमेव द्वेष्टतमस्य शुचार्पये पावको अस्मभ्यगो शोभवेत्या पावकोऽन्नमेवावरुन्धे द्वाभ्यामधिक्रामधिप्रतिष्ठित्यावस्योरे 药物神智 ेवणि दिव्याघारयति पञ्चाहुत्या यज्ञमुखवारभजेक्ष्णया व्याघारयति तस्मादक्ष्णया वशवाङ्गानि प्रहरन्ति प्रतिष्ठित्य षट्कुर्यात्यायामास्यव षट्कारस्याद्यन्नवषट्कुर्यात् रक्षागंसि ैव देवान हुतादस्येजमानप्रेणादिरेजमानं होदानप्रेणादिमधुरा हुतादो काम्यं वा एतदन्नन्यत्तध्यारण्यम् अधुरत्नावलमिश्रेणावो क्षत्युभयस्यावृत्यैक्रमुष्टिनावो क्षतिप्रायावृत्यो वैत्रमुष्टस्य या मृत्वा यत्त्वाभ्यां मृतिष्ठान एष प्राजया पशुभिन्न प्राणदापानदा इत्या प्राणामैवात्मन् दत्त प्रजावेव पशुवरिव प्रजामेव पशोनात्मन्धत्तवा वृत्तमहन्द्वं वृत्रा एतामत्रयेनैकमदाहृतिमवश्यतामजहात्तस्यात् श्च भोगानप्यदानेन पुनो निर्मो पुनः पुनः निर्मोच्य देयं रामय राजक्पा पु निर्मोच्यते वा पुनः निर्मोच्यते सो खलु बृष्टते दस्य आदधा च त्रिल्या वा नैवाग्निस्तस्मै भागेयं करो चोदुम्बरे देवा इत्याहप्राणावै विश्वे देवा प्राणैदेवैयुक्तिमित्यायस्मा एवं ज्युत्या ोषे यज्ञपतिमाभयन्दीत्या वकोन्नमेवावन्दे देवासुरासंयत्याः सन्ते देवा एतदप्रतिरथमपश्यन्दे ने प्रत्यसुरानजयन्तदप्रतिरथस्याप्रतिरथत्व प्रतिरथं वित्येव्यान् यत्यथो अनभिजितमेवाभिजेति सत्यं भवति दशाक्षरा विराजेमो लोको विधुरावनयोर्लोकयोर्वित्या ेष्मारन्नि दधातिष्ठित्य एष दिवामध्य आस्तैदयामिरस्मेत्यामेवावरन्धे चतुर्भिरा चत्वारिन्द्रं विश्वाहव क्षदित्याः प्रजा वै पशवस्वशो यक्षेवा देवागो आचवक्षदित्याः समाकृत्यै वाजस्य आदित्य पुत्र ब्रह्मणा प्रादृयन्निगृह्णादि जीवनप्रतिशङ्गैः विद्यानित्याह देवलोकमेवेदयो वर्तते क्रमध्वनाक्रमित्या हेमानेवेदया लोका लोकान् क्रमते पृथिव्याहन्तरिक्षमारोहमित्या हेमानेवेदया लोकान्र्यन्दो नापेक्षन्तर्ग्यमेवैद्या लोकमेत्यज्ञे प्रथमो देव यथा विद्याहोष्वेवेदया देवमनुष्ये शुचक्ष्वर्थ हस्राक्षेत्याह राहस्रेस्मै देवर्णामोदुम्बरे स्वय माधुनाया माधुनामिश्यामेव ष्ठाङ्गमय दृप्तवाग्ने पुरो मात्यै देवासुरायुत्रया सुर्याय प्रहृतिभटन्मन् चित्रामिति श्रीमयीर्वरेण्यस्य चित्रामित्याहै एव हे सप्तरे अग्ने समिध सप्तशिप्पा इत्याहसप्तया सप्तानक्षेणादिपोम्नया त्याच्यवपरित्य समेजेपालो वैश्वर रस्याक्षादेव वैश्वानरमव्याय प्रयानो वै देवानां विष देव विषेनैवास्मै मनुष्यविषमवर्धे सप्त भवन्ति सप्तगणा वै मरुतो गणशदेव विषमवर्धे गणेन गणमनुदृत्यजो दिविषमेवास्मा अनुवर्त्मानम् ोद्धारान्द्यो दिवसोर्मे धारा सति दिवा एषा हुयिते कृतस्य वा एषा धारामुष्पिन्नावेधाद्य तेजदेवास्मै तेजो वृन्धे कामा वैद्धारा कामादेव वरुन्धेयङ्कामये प्राणा न स्यान्नाद्यम् विच्छिन्न्यामिति विग्राहन्तस्य जुहुयात् प्राणादेवास्यान्ना प्राणानस्यान्नाघो सन्तता संवत्सरेणैवास्मान् हैदत्वा अन्नस्य रूपेण णि ज्योति देवतावरुन्धे यत्सर्वेषामर्थमिन्द्र प्रसितस्मादिन्द्रियमेवास्मिन्नपरिष्टात् एतद्वै यज्ञस्य रूपको रूपेण श्च मैत्या हन्दसंवा एकाच तिस्रश्च मनुष्यछन्द नतञ्जदस्रश्चाष्टौ च देवछन्दसञ्जावरुन्ध आत्रयस्त्रिगुंशतो जुहो त्रयस्त्रिगुंशद्वै देवता देवता एवावरुन्ध अष्टाचत्वारिपुंशतो जुहोत्यष्टाचत्वारिविंशदक्षरा जगति जागता पशवो जगत्यैवास्मै पुशोऽनुवरुन्धेवादश्च प्रथमश्चेजत्वादशपादा संवत्सरः संवत्सर एव प्रतिष्ठति भ्यपाक्रामद्भागधेय निश्चमानस्तं देवा अब्रुवन्वनः आवर्तस्त वाजप्रथवीयं जहवन्यस्मादग्नये वाजप्रभवीयं जद्वाजप्रथवीं जहो तज्ञमे तद्भागधेयेन समर्थयत्यभिषेकेवास्य सचिभ्योति सप्तग्राम्यासक्तारण्यार्थ्यान्नस्यान्नस्य न्नस्यावर्ध्या उदुम्बरेण स्वेण जहोर्वा उदुम्बर कोऽवानामभिषिक्तो त्यह्नैवास्मै राष्ट्रं प्रदापयति रात्र्याहरवास्मै प्रत्येकामन्नात्यन्दुहावृन्धे षट्वार्दवार्दष्वेव प्रतिष्ठति भुवनस्य वातनामानिजुहोत्यभ्येवैनमस्मिन् लोके वातः पवदे इमे लोकायेभ्य एव लोकेभ्यो वा तमवरुन्धे दम समुद्रो जनभस्वा नित्याहैतद्वैवा तस्य रूपकौ रूपेणैव वा तमवरुन्धेनाजहो तेषामन्यताहुतिरवकल्पते स्वर्गाय वै लोकाय देव रथो युज्यते यत्र गोताय मनुष्यरथ एष खलु वै देव रथो यदत् वै न गोसयेनुक्तस्वर्गल्लोकमभिवहदयत्सर्वाभिपञ्चभिर्युक्ताप्रतिष्ठिताहुतयश्वरप्रतिष्ठिता प्रतिष्ठितान्युक्तानिर्यावानैवाग्नि युक्त आधीयत एवमेव तत्प्रत्याहुतयश्च यज्ञायज्ञा भै यज्ञो यावानग्निष्टो भूमात्मास्यादवोध्वक्रियते यावानेव यज्ञस्तमं ततोभ्याम् ृतेन वा एतस्या निष्ठक आहुर्वष्टक आहुवेदाश्रवरा भवति यज्ञं यजमानोत आहुनां प्रत्याहुदयस्तिष्ठन्ति न यज्ञः पराभवमानोऽष्टापदधात्यष्टाक्षरा गायत्री जागते नन्दोभिदेवैनुतेन पुनश्चिदर्य एवं वित्त्वान् पुनश्चितिञ्च नुत आदृतीया पुरुषादन्नमद्यथा मे पुनराधेय एवं पुनश्चितिर्यधेयेन पुनराधेयमाधृतेयानो दिश पुनश्चितिं च नुत् पुनश्चितिञ्च नृताल्वा हर्णजे धृतरुत्वा बोधयति तादुर्गेव तम् मनोरग्निमचिनदते पुनश्चितिमवश्यत्तामचिनदतया वै सात् पुनश्चितिम् च न छन्दश्चितं जिन्वेदपक्षकामर्पशमो वै छन्दाकुं जषमानेव भवति रचितं जिन्वेदसु वर्गकामस्यैवस्येन एव भवयः कामयेन शीरषण्डानमुष्मिन् लोके स्यामिति चीरषण्डानेवामुष्मिन् लोके भवत्यल रचितं जिन्मेदचुदस्येदं प्रतिष्ठा कामश्चिषो धिक्ष्वेव प्रतिष्ठति ृदे प्रतिजनिष्यमाणान्त्रैव जातां भ्राद्र्यान् मृददे प्रतिजनिष्यमाणान्न जिन्मेद भ्राद्रुव्यनवज्रवैरथो वज्रमेव भ्रादुर्येभ्यप्रहरतिक्रोणचितं जिन्मेतान्नकामोद्रो देवान् नमवर्जेतमो जन्मेदपशुकामप्पुषुमा देव भवति वरिधायन्मेद ्राम्येव भवति श्मशानचितं कामयेत पितृलोकयामिति पितृोक एवध्नाति विश्वामित्रयत्तताभिस्येन्द्रियं वीर्यमङ्गद्भिहव्या उपदधादीन्द्रियमेवताभिर्वीर्यं यजमानो हो दृष्ण उपदधाति यजमानाय धनं यत इन्द्रियम् वीर्यमवरुन्धे द्वादशोपदधा ऋत्वा दशाक्षरा जगति जागताः पशवो पशवः पशो नैवावरुन्धे षण्मा जालीये षण्वा रथव रतवः खलु वे देवा पितरार्तो नैव देवान् पितरोऽ प्रीणाति यसादयत्यनुष्ठक्प्रतिवद्भवति द्विश्वनुष्ठभश्च यत्रियो यद्दिश्वभस्तस्मादस्वस्त्रिभित्तिष्ठति यच्छदस्वगायत्रि ह्यस्तस्मात्सर्वापश्चपदप्रतिदधायते परमावा एषा छन्दसाङ्गदनुष्ठक्परमश्चतुष्टोमस्तोमानाम् परमस्त्रिरा यज्ञानाम् परमोऽः पशूनाम् परमेणैवैनं परमदाङ्गमयत्येकविघुंसमद्भवति यस्मिन्नश्व आरभ्यते त्वादशमासाः पञ्जत्तवस्त्रे मे लोका एष प्रजापति प्राजाभ्याश्वस्तमेव साक्षातुर्थादिषक्वरय पृष्ठं भवन् जन्यच्छन्दोन्येवा एते पशवः आरभ्यन्त उदेव क्राम्या उदयार्ण्यायच्छक्वरय पृष्ठम् भवन् अश्वस्य रश्मं ब्रह्म रामम् भवति रश्मिनावाश्व यदीश्वरो वा ङ्गं गौर्यं ब्रह्म सामं भवत्यश्वस्य ये ते धृत्यै सङ्कृत्यच्छावाकसामं भवत्युत्संषेदश्वमेधः कस्तद्वेत्याच्छावाकसामं भवत्यश्वस्य सर्वत्पाय पर्यात्याय सर्वस्तोमादिरात्र उत्तममहत्पा धि सर्वम् इति पञ्चमकाण्डे चतुर्थः प्रश्नः